अथ षट्त्रिंशम् दशकम् अत्रेस्पुत्रतया पुरा त्वमनसूयायाम् हि दत्ताभिधो जातः शिष्यनिबन्धतम् द्रितमनाः स्वस्थश्चरन् दृष्टो भक्ततमेन हेहयमहीपालेन हे तस्मै वरान् अष्टैश्वर्यमुखान् प्रदाय ददिथ स्वेनैव चान्ते वधम् सत्यम् च वरम् तच्छक्ति मात्रानतम् ब्रह्म द्वेषि तदाखिलम् नृपकुलम् हन्तुम् च भूमेऽर्भरम् सञ्जातो जमदग्नितो भृगुकुले त्वं रेणुकायाम् हरे रामो नाम तदात्मजेष्वरजः पित्रो रथाः सम्मदम् लब्धाम् नायगणश्चतुर्दशवया गन्धर्वराजे मनागासक्ताम् किल मातरम् प्रतिपितुः ्यातिग सोदरैः सममिमाम् छित्त्वाथ शान्तात् पितुस्तेषाम् जीवन योगमापिथवरम् माता च ते पित्रा मातृमुदेस्तवाहृतवि प्रस्थायाथ भृगोर्गिरा हिम गिरा, गिरा वाराध्य लब्ध्वा तत्परशुम् तदुक्तदनुजच्छेदी महास्त्रादिकम् प्राप्तो मित्रमथा कृतव्रणमुनिम् प्राप्यागमस्वाश्रमम् आखेटोपगतोऽर्जुन सुरगवी सम्प्राप्त सम्पद्गणैस्त्वत्पित्रा परिपूजितः पुरगतो दुर्मन्त्रिवाचा पुनः गाम् क्रेतुम् सचिवम् न्ययुन्त कुधिया तेनापि मुनि प्राणक्षेप स रोष गो हत शुक्रोज्जीवित तातवाच्यचलित क्रोधोऽथ सख्या समम् बिभ्रध्यात महोदरोपनिहितम् चापम् कुठारम् शरान् आरूढः सह वाहयन्त्रकरथम् क्षितिपतौ सम्प्रास्तु ताः पुत्राणामयुतेन सप्त दशभिश्चाक्षौहिणी बर्मः सेनानीभिरनेकमित्र निवहैर्व्याजृम्भितायो धनः सद्यस्त्वत्कुठार बाण विदळन् निःशेष सैन्योत्करो भीति प्रदृत नष्ट शिष्टतनयस्त्वामापतत् हे चक्रे त्वय्यथ वैष्णवेऽपि विफले बुद्ध्वा हरिम् त्वाम् मुदा ध्यायन्तम् छितसर्वदोषमवधीः सोगात् परम् ते पदम् मर्षित हेहयात्मजगणैस्ताते हते रेणुकाम् अग्नानाम् हृदयम् निरीक्ष्य बहुशो घोराम् प्रतिज्ञाम् वहन् ध्यानानीत रथायुधस्त्वमकृथा विप्रद्रुहः क्षत्रियान् दिक्चक्रेषु कुठारयन् विशिखयन् निःक्षत्रियाम् मेदिनीम् तातोज्जीवनकृ नृपालककुलम् त्रिः सप्त कृत्वो जयन् यज्ञेक्ष्मामपि काश्यपादिषु साल्वेन युध्यन् पुनः कृष्णोमुम् निहनिष्यतीति शमितो युद्धात् यस्यास्त्राणि महेन्द्र तपस्तन्वन् पुनर्मज्जिताम् गोकर्णावधिसागरेण धरणीम् दृष्ट्वार्थितस्तापसैः ध्यातेश्वासधृतानलास्त्रचकितम् सिन्धुम् स्रुवक्षेपणादुत्सार्योद्धृतकेरलो भृगुपते वातेश इति षट्त्रिंशम्